मुद्गलपुराणं खण्डं फोर् गजाननचरितम् अध्यायं सेवेन्टीन् गणेशभक्ताधीनत्ववर्णनं श्रीगणेशाय न महामुद्गल उवाच अन्यच्छृणुचरित्रं तु गजमस्तकधारणे महेश यदि विख्यातो राजा धर्मयुधो भवद तस्य गेहे गुरुः साक्षात् जगामकीर्तिमोहिदः राज्ञा सम्मानितः सोऽपि नृपाय च ददौ वरं बृहस्पतिरुवाच प्रणतस्ते महीपालमूर्धा मे प्रभविष्यदि सर्वपूज्यो विशेषेण गदो भूत् स्वगृहे गुरु तदा कदाचिद्राजर्षिर्नारदं मार्गसंस्थितम् अवमत्यययौ सोऽपि तं शशाप नृपाधमं नारद उवाच मदेन राजशार्दूल मामनाधृत्य गच्छसि अधो सुरस्य यो नौ पदिष्यसि न संशयः काले सोऽपि मम गज यो नौ गजासुर इति ख्यातो नरकुञ्चरवेशभृत गजासुरेण शम्भोस्तपः कृतम् च विशेषतः मन्त्रम् जजाप शैवेनातोषयन्नियमे रताः सहस्रेषु गदेश्वेव वर्षेषु वरदः शिवः जगादवृणुदैत्येश यत्ते मनसि वर्तते सव्रे राज्यमुग्रम्मे मे देहि लोकत्रयस्य च बलं सर्वाधिकं शम्भो आरोग्यं सर्वपूज्यताम् अन्ते मोक्षं च मे देहि तदेधि शङ्करो ब्रवीद मस्तक सर्वपूज्यास्ते भविष्यदि गजासुर अदो अधो गजासुरस्यैव मस्तकं गणपेन तद् धृतं वचो रक्षणार्थं शङ्करस्य बृहस्पतेः अन्यच्छृणुप्रजानाथ इतिहासं पुरातनं कदाचित् शङ्करेणैव पूजिदो गणनायकः ददौ शिवाय निर्माल्यं मूर्तिः संस्थश्च विघ्नवः स्वप्ने तस्य समाहात्म्यम् अधयामास विस्तराद श्रीगणेश उवाच एकनिष्ठतया शम्भो भक्त्याघं पूजितस्त्वया प्रसन्नोऽहं स्वमूर्तिस्तशृणु मे वचनं हितं निर्माल्यं मे गृहाणत्वं सर्वसिद्धिप्रदं शिव जनेदमस्तके पुष्पं धुदं मान्येन भक्तिदः सर्वपूज्यः सर्वादिगयशोधरः वैभावी सर्वाधिगयशोधरः ततः सौन्दर्दधे भवद हस्ते समालोक्य विस्मितः भवद विचारं स चकारैव किमिदं देवभाषितं सर्वपूज्यो गणाधीशो नान्यो ब्रह्माण्डमण्डले अदो मम भक्तिमाहात्म्यं परीक्षार्थं ददौ प्रभुः ततः निर्माल्यं नदृतं मस्तके स्वके पूजायां स्थापिदं दक्षमहाभक्तेन सर्वदम् तदोत्रिसम्भवस्तत्र दुर्वासा सहसा ययौ दर्शनार्थं महेशस्य शिवेन भृशमानिदः शिवो विचारम विचारमकरोदयं योगी स योगविदवर्णाश्रमविहीनश्च मदस्साक्षाद्विनायकः अधो निर्मल्ययोग्योऽयं ददौ तस्मै सदाशिवः निर्मल्यं विघ्नराजस्य कथयित्वा यशो महद तं प्रणम्यमः योगी दुर्वासाप्रययो प्रभुं यथेच्छं विचरन्मार्गे ददर्श देवनायकं विचारमनसा योगी चकारस्वहितावहं सर्वपूज्यो गणेशाद्वै नान्यो भवति निश्चितं वयं भक्त्रा गणेशस्य भजामो नन्यचेतसः अदो निर्मल्ययोग्योऽहं नैव शङ्करवत्कदा अयं देवपदि साक्षादिन्द्रः सत्त्वगुणान्वितः योग्योऽयं नैव सन्देहस्तं ययौ मुनिसत्तमः तं दृष्ट्वा मखवानत्वस्थित ऐरावदे प्रभुः आज्ञां कुरु महाभागमुने दासोऽस्मि ते जगौ ततस्थोऽपि प्रसन्नात्मा ददौ तस्मै महामुनिः निर्माल्यं गणनाधस्यमाहात्म्यं प्रोच्य सादरः इन्द्रो राज्यश्रियायुक्तो गृहीत्वा गजमस्तके निर्माल्यमिन्द्रः संस्थाप्य ययौ मार्गमवस्थितः निर्मल्यस्यापमानेन भ्रष्टो भूदेवनायकः गदा स त्वमयी लक्ष्मीर्गजस्तेजो युदो भवद तिरत्कृत्य महेन्द्रं तं गजो हत्वात् सुरान् परान् ययौवने प्रजानाथस्वच्छन्तश्च बभूवसः तदोदितापसंयुक्त इन्द्रो हि न श्रिया भवद दैत्यराजा बुभुजिरे सङ्गृह्य स्वर्गमागताः तदो बखाव गदे काले गुर बोधित सुर देव सह तोषया गदे वर्ष गणेश तोषा सीधा गर्षसहस्रे तो गणेशस्त पूजित संस्तुत प्रसन्न वरदोंवदेश उच मां कुरुष्व महेन्द्रत्वं मम निर्माल्यदूषणं भक्त्याधीनस्वभावेन प्रसन्नोऽहं कृतस्त्वया समुद्रतनया लक्ष्मीर्भाविष्यदि सुसिद्धिदा तां प्राप्य पूर्ववद्देवा श्रिया युक्ता भविष्यथा पूजा कृतफलं संस्थितं भवेत् तस्य वन्दनमात्रेण सफलो जायते नरः भावेनागृह्य निर्माल्यं मस्तके धारितं यदि पुनस्तच्छुब्दभूमौ वै स्थापयेद्वा जले सुर गर्ते यत्र मनुष्यस्य पादस्पर्शो न वै तदा फलयुतसोऽपि मद्रूपो जायते नरः सदा दुःखयुधं त्वाहं पुरा कर्तुं समुद्यधः गुरुणा बोधितं मत्वा पराधं ते सहाम्यहं मामेव शरणं देवमागतं संविचिन्त्य वै बहुकालेन देवे शक्रोधहीनोऽहमागतः यवमुक्त्वा गणाधीशो गतस्वानन्दके पुरे इंद्रो राज्यश्रियाुक्त बभूवेश प्रजापद सदा निर्माल्यज गणेश भजनेरध निर्विघ्न महेन्द्र चा मरण राज्यकोद अधुना शुणु वृत्तावत गज से च इंद्र त्यक्त वने ग चचारेच्छेद हस्ति सदा मोहयुक्त परम दुर्जय बुभुजे विविधा मदे नदस्वन काल गणेशो जठरे गावत्या शिरो दैत्यशिरोद मस्तकेन बभूव गणनायकः तादृशो वातरत्तत्र विष्णुशोकपरो भवत जनार्दनश्चेष्टितं ज्ञात्वा ध्यानेन ययौवने ऐरावद शिरच्छित्वा योजयामास तत्क्षणाद तत्रोङ्कारं समावाह्य मन्त्रेण जीवसंयुधम् चकार्यविघ्नराजं देवास्ते हर्षिदा दैत्येन तच्चिरस्त्यक्दम् नर्मदायाम् प्रजापदे तत्र कुण्ठम् समुत्पन्नम् गणेश महीमान्वितम् तत्र या नर्मदायाम् समास्तिदाः यत्र तत्र गणेशास्ते बभूव सर्विधिद कथम रेवा जले संस्ता दृषद मुनिम गणेशास्तम चवधन सांबरा मुद्गल उवाच ब्रह्म कमण्डलूत्पन्नाश्च दस्रो नद्य एवच च गङ्गा च यमुना दक्षनर्मदा तु सरस्वती गङ्गाया महिमानं तु सर्वत्रातुलमुत्तमं ज्ञात्वा सा नर्मदा देवी सन्दप्ता चेदसा भवद तदस्तया तपस्तप्तं शङ्करस्य महात्मनः वर्षे गदे शम्भुः प्रसन्नो वरदो भवद तया सम्पूजित शम्भुस्तुतो ज्ञात्वा मनेप्सितं तस्या जले शिवाः सर्वे दृषधश्च कृतास्तदा तदो गङ्गासमं तेजो बभूव सरितः प्रभोः नर्मदायास्तधा सापि न सन्तोषयुधा भवद पुनस्तथापतिव्रंशतपो विघ्नेश्वरे रदा गतेषु वैसहस्रेषु वर्षेषु वरदो भवद स्तुतः सम्भूजितसोऽपि हृदीप्सितवरं ददौ रक्तवर्णा गणेशाना दृषदो जलगाकृताः तदस्सादीवमाहात्म्ययुता जादा सरिद्वरा दर्शनेन जनानां वै गङ्गास्नानफलप्रदा यस्या स्थिरे जले संस्था दृशदच्छङ्करात्मिकाः रक्तागणेशरूपास्तत् साम्यगाका भवेन्न महिमानं वर्णयितुं रवाया कः क्षमो भवेद गणेश शिवसंयुक्ता यत्र तत्र महानदी एदत्ते कथितं सर्वं विस्तराद्गणपस्य वै चेष्टितं सर्वपापग्नं सर्वसंशयनाशनम् आदौ दक्षगणेशस्य दैत्यमस्तकधारणम् ऐरावतस्य तद्वद्वै भक्तमाहात्म्यरक्षणाद शिरश्चेदादिकं तस्य चरितं तद् बृहस्पतेः निर्माल्यस्य च रक्षार्थं माहात्म्यं गणपाश्रितं भक्तवच समाबद्धो प्रजापदे किं प्रजापतिर् न करोति येन स्वशिरसश्चेधकृतोदो भक्तस्य कारणात् मलजो गजवक्त्रश्च बभूवे भक्तिमोहितः यदत्ते कथितं सर्वं चेष्टितं परमाद्भुतं प्रकृतं शृणु दक्षत्वं पार्वदी पार्वतीप्रेमसंयुक्ता पूजयामास तं सुदम् देवा हर्षयुधा सर्वे जग्मुस्वं स्वं, स्वं निवेशनम् ॐ तत्सदिति श्रीमदान्त्ये पुराणोपनिषदि श्रीमन्म उद्गले महापुराणे चरिदे चतुर्थे भक्ता गजाननचरिते गणेशभक्ताधीनत्ववर्णनं नाम सप्तचत्वारिंशोऽध्यायः ओ